यामो जलावकुन्दनवती तेजोमयी नष्ट javaanga vilohin nimavaaranaka eh vasini premo ke vadi va vasini kadapthi kumpura ange ardanaalam chaamie bhagadeengatoh sem praja samachikaam ivare ओम् अमृतेश्वर्ये नमः ॐ अमृतेश्वरे नमः ॐ अमृतेश्वरे नमः ॐ गणानाम् त्वा गणपतिभुं हवामहे कभिं कवीनां मम श्वत्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मण ी गणपदेवी सरस्वती वाग् बिगिनिङ्ग् अण्ड् गो टिल् दे we like them this time and then we'll repeat that one more time okay and then we'll do individual no, try the then we'll do uh, then let's do one thing let's just start with uh, okay. uh let's start with the uh, um, 9 10 11 okay we'll do 9 10 11 we'll repeat 11 one more time then we'll see how that goes okay we'll start with 9 which is must have okay अग्निश्च अगनिश्च सोरि वन् टु त्री ग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे त्वमेधश्च मे पृथिवी च मे द्वितिश्च मे दितिश्च मे द्यौश्च मे शत्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ता वृक्ष मे सोमश्च मे यजुश्च दीक्षा च मे तपश्च मरुतुश्च मे व्रतञ्च मे होरात्रयो वृष्ट्या बृहद्रतन्तरे च मे यज्ञेन कल्पेताम् श्च मे वत्साच मे त्रविच मे त्रवीच मे दृत्यवाच्य मे दृत्यौ हीच मे पञ्चाविच मे पञ्चाविसश्च ऋषभे मे नड्वांच मे धेनु म आयुर् कलता कलता अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् कृष्णोत्रम् यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एकाच मे पञ्चचमे सप्तचमे नव चम एकादश चमे त्रयोदश चमे पञ्चदश चमे सप्तदश चमे पञ्चविगुंशतिश्चमे सप्तविगुंशतिश्चमे नवविगुंशतिश्चम एकत्रिपुंषच्चमे त्रयस्त्रिपुंषच्यमे चतस्रश्चमेौ चमे द्वादशचमे षोडशचमे विपुंशतिश्च मे चतुर्विपुंशतिश्च मेष्टा मे द्वात्रिगुंशच्च मे छत्रिगुंशच्च मे च मे चतुश्चत्वारिगुंषच्छमेष्टाश्चमे वाजश्च प्रसवश्च त्रिजश्च चतुश्च शिवश्च मूर्धा च यश्नियश्चान्त्यायनश्चान्त्यश्च भावनश्चनश्च चाधिपतिश्च Let's do uh, number 11 one more time okay this slow slowly maybe this time okay 1 2 3 एकाच मे त्रिश्चमे पञ्चच मे सप्तच मे नव चम एकादश च मे त्रयोदश च मे पञ्चदश चतुश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च एकत्रिगुं पच मेचमे चतुर्चमेष्टौ च मे द्वादश चमे षोडश च ृगुं षच्यमे षत्रिगुं षज्जमे चत्वारिगुं षट् मे चतुश्चत्वारिगुं ष्य मे सा चत्वारिगुं षज्ज मे वाज ्रतुश्चान्त्यायन्त्यश्च भवनश्च भुवनश्चाधिपतिश्च एका च मेमे पञ्चचमे सप्त च मे नव चम एकादश चमे त्रयोदश चमे पञ्चदश चमे सप्तदश च मे नवदश चम एका विघु एकविघु सदश्चमे त्रयोविपुंशतिश्चमे पञ्चविभुंशतिश्चमे सप्तविभुंशतिश्चमे नवविभुंशतिश्चम एकत्रिभुंशच्चमे त्रयस्त्रिपुंशचमे चतश्चमेष्टौ चमे द्वादश चमे षोडश िगुं षतिष्ठमे द्वात्रिगुं षष्टमे षटत्रिगुं षष्टमे चत्वारिगुं षष्टमे चतुश्चत्वारि गुं षष्टमेष्टा चत्वा त्रिगुं षष्टमे वाजश्च प्रसवश्चाजश्च क्रतुश्च सुवश्च बोर्धा च भुवनश्चाधिपतिश्च एकाशमे त्रिष्यष्टमे पञ्चचमे सप्तचमे नवचम एकादश चमे त्रयोदश चमे पञ्चदश चमे सप्तदश चमे नवदश चमेकविपुंसतिष्टमे त्रयोविपुंसतिष्टमे पञ्चविपुंसतिष्टमे सप्तविपुंसतिष्टमे नव विपुंसतिष्टमे च िकुं सच्चमे त्रयस्त्रिकुं षट्मे चतस्रष्टमे द्वादशच मे षोडशच मे ऋगुं चतुष्टमे चतुर्विगुं चतुष्टमें चतुष्टमे चत्वारिकं स्वच्छमे चतुश्चत्वारिकं स्वच्छमे चत्वारिकं स्वच्छमे वादश्च प्रसवश्च प्रसवश्चापुजश्च चतुश्च शिवश्च मूर्धा च व्यश्नियशा्यायन सा शान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च Very nice, very nice, very nice, very commendable, very well done. We have done extremely well. Only thing I would say is that you are saying Saa instead of Saa, okay? Just make a, make a, make a, Ega Vikum Shathishtha meh, not Ega Vikum Shathishtha meh, okay? There is no Saa, it's a sha. Saa. Like Sharanam and the, uh, Shiva kind of Saa, okay? But, it's not, it's not Saa. Which one, uh, Hari? एकाविगुम शतिष्ठमेरे एकाविगुम शतिष्ठमेषा ओके नॉट सा एकाविगुम सातिष्ठ आय इज रॉन्ग एकाविगुम शतिष्ठमे त्रयोविगुम शतिष्ठमे पञ्चविगुम शतिष्ठमे ओळश ओके नंदा मर्सा ओके सो आई थिंक इफ यू आर रीडिंग इन इंग्लिश यू डोंट नो वेदर इट्स एस एच ऑर एस दे हैव पुट इट ऑन व्हाट दे आर से सम टाइम दे पुट दिस राइट लिटिल मार्क जस्ट वाच फॉर इट सो बट वेरी वेल डन ओके यू आर डन नेक्स्ट टाइम वेल Congratulations. Thank you. Who wants to go next? I can try. Okay, go ahead. Ekachami, Tisvashami, Pancachami, Saptachami, Navachama, Echa, Dasha, Dasha, Dasha, Dasha, Dasha, पञ्चदश चमे सप्तदश चमे नवदश चम एकविघुं षतिश्चमे त्रयोविगुंषतिश्च पञ्चविगुंषतिश्च सप्तविगुंषतिश्चमे नवदिगुं चतुश्चिगुं षट् चमे त्रयस्त्रिगुं षट् चमे चतसश्चमे अष्टौ शमे द्वादशचमे षोडशचमे द्विगुंशतिश्चमे चत्वारिगुंशतिश्चतुर्विगुंशतिश्चमे अष्टाविगुंशतिश्चमे द्वात्रिगुं षट्चमे षत्रिगुंषट् चमे चत्वारि गुंषट् चमे चतुश्चत्वारि गुंषट् चमे मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च शुवश्च मूर्धा चिश्च श्चनश्च भुवनश्चाधिपतिश्च thank you i think that i think you also did the same thing when you, you uh, switched it to shya instead of right okay oh, which one haris uh, i i think that the shya is shya no no you uh, you started with ega bigum satishya then you realized that it should be cha yeah. then you started saying it correctly so yeah. you did right okay okay so that is the only thing you have to note that ega bigum satishya is sakara not dasakara okay मे पञ्चचमे सप्तचमे नवचमेकादश चमे त्रयोदश चमे पञ्चदश चमे सप्तदश चमे नवदश चमेकविघुंसतिश्चमे त्रयोविपुं सतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्चम एकत्रिपुंषश्चमे त्रयस्त्रिपुं षष्टमे चतुष्पश्च मे षौश्च मे द्वादशतमे षोडशतमे विपुं सतिश्च मे चतुर्विपुं सतिश्च मेष्टविपुं सतिश्च मे त्रिगुं षष्ठमें षष्टमे चत्वारि गुं षष्टमे चतुश्चत्वारि गुं षष्ठमें षष्ठमे वाजश्च प्रसवश्च पिजश्चक्रतुश्च सुवश्च मूर्धा च वृष्टि यान्द्यायनश्चान्द्यश्चनश्च भुवनश्चाधिपतिश्च Uh, same thing, uh, uh, make sure that you don't say Shah, uh, okay? Okay. Panjabhi kumcha tishchame, sabtabhi kumcha tishchah, it's all Shah, okay? Like Shiva Shah, uh -huh. not like a Sarapati Shah. Uh -huh. sa. okay. so yeah, I'm actually calling grading Malaya, I'm not sure. It is written there also, I'm sure that they have, we have Shah. We can see it right? more like Shah. ङ्गो एकाचमे त्रिसष्टमे पञ्चचमे सप्तचमे नवचम एकादश चमे त्रयोदश चमे पञ्चदशचमे सप्तदश चमे नवदश चम एकविंशतिश्चमे त्रयोविंशतिश्चमे पञ्चविगुंशतिश्चमे सप्तविगुंशतिश्चमे नवविगुंशतिश्चम एकत्रिविंशच्चमे त्रयस्त्रिविंशच्चमे द्वादशचमे षोडशचमे गुंशतिश्च मे चतुर्विगुंशतिश्चमे विगुंशतिश्चमे द्वात्रिगुंशच्चमे षट् त्रिगुंशच्चमे चत्वारिगुंशच्चमे वाजश्च प्रसुवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा श्चा ओकेलर्ग वा ऐ केण्ट् गो नेक्स् एकाचमे त्रियश्चमे पञ्चचमे सप्तचमे नवचम एकादश चमे त्रयोदशचमे सप्तदश चमे नवदशम एकविग् विघुं गजिष्टमे त्रयोविघुं गजि षधिष्ठमे पञ्चविघुं षिष्ठमे सप्तविघुं षधिष्ठमे नवभिघुं षधिष्ठम एकत्रिघुं षट्मे त्रयस्त्रिघुं षट्मे षडमे षष्टौश्चमे द्वादशचमे षोडशचमे द्विघुं षिश्चमे चतुर्विघुं षिश्चमें षधिश्चमे द्वा द्वात्रिघुं षट्चमे षटत्रिघुं षट्चमे चत्वारि षच्यमे चतुश्चत्वारिगं षट्मे चत्वारिकं षट्चमे व्याजश्च प्रसवश्च पिशश्च कृतुश्च सुवश्च मूर्धां चायस्यां चौनश्च भुवनश्चादिभक्तिश्च दीर्घ आकारश्च क्रतुश्च मूर्धा च व्यस्नियश्चान्त्यायनश्चान्त्यश्च व्यस्नियश्च आन्त्यायनश्च आन्त्यश्च एकाच मे तिस्रश्च मे पञ्चचमे सप्तचमे नव चम एकादश चमे त्रयोदश च मे पञ्चदश चमे सप्तदश चमे नवदश चम एकविगुंशतिश्च मे त्रयोविगुंशतिश्चमे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्चम एकत्रिगुंशच्चमे त्रयस्त्रिगुंशच्यमे चतस्रश्चमेष्टौ च द्वादशचमे षोडशचमे विगुंशतिश्च मे चतुर्विगुंशतिश्चमेष्टाविगुंशतिश्च मे द्वात्रिगुंषच्चमे षत्रिगुंषच्यमे चत्वारिगुंषच्यमे प्रसवश्च त्रिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नीयश्चान्त्यायनश्चान्त्यश्च भवनश्च भुवनश्चाधिपतिश्च ओम् इडादे <laughs> <laughs> ृहस्पतिरुक् ओ इडादेवनुपतिरुक्ता ॐ इडादेवहूर्मनुर्यज्ञिनि बृहस्पतिरुक्ता मदानी ॐ ॐ इडादेव बृहस्पतिरुक्था मदानी ॐ इडादेवहूर्म बृहस्पतिरुक्था मदानी One more time. Okay, everybody say that one more time. Om Om Tida Deva Manuriya Yanyin Braspar Rukta Madani Is that okay for everybody? No. Yes. Okay. Then let's, let's try to split the band. Try, okay? Tida Deva Manuriya Yanyin Om ॐ इडादेवहूर्मनुर्यज्ञी बृहस्पतिः ॐ इडादेवहूर्बृज्ञी बृहस्पतिः ॐ इरा देव मनोर्यज्ञा मदानि बृहस्पदृक् ॐ हूर्मर्बृहस्पतिरुप्ता मदानिज्ञनिर्ति बृहस्पतिरुप् इडादे बहूर्मनुर्यज्ञप्ता मदानि शगम् शिषद विदिसा ओके सो फार थिंक कैन वी गो अहेड यस या शगम् उपथामदानी शगम् शिषद रुक्थामदानी शगम् शगम् शिषद रुक्थामदानी शगम् शिषद क्था मदानि गुं रुक्था मदानी छुं षिषद् विश्वे रुक्था मदानी च गुं षिषद् विश्वे च गुं तिषद् विश्वे देवाः षिषद् विश्वे देवाः गुं षिषद्विश्वे देवासु उक्तवाचः जगुं जगुं देवां षिषद् ीश्वे देवाः सूक्थ वा उक्तवाच ओके वन्वोड् ने मं तिषद् विश्वे देवा तु उक्तवाचः शिष्य देवा देवाः देवाः प्रोडोड्बे सूक्तवाचः देवाः देवास् ओके देवासु उक्तवाच देवास् सूक्तवाचः ओके डबल् स्वकारात् सघुं षद्विश्वे देवासु उक्तवाचः डी ओके श्वे देवासु निर्माधर्मासु विश्वे मातर्मा मातर्मा सुप् पृथिवि मातर्मा सुप्तवाच पृथिवी मातर्मा सुप्त वाच पृथिवी मातर्मा पृथिवी मातर्मा माहि गुः ी मातर् माहि पृथिवी मातर् माहि पृथिवी पृथिवी मातु शिर् मधुमनिष्ये पृथिवी मात शिर् मधुमनिष्ये मधु मनिष्ये माहि मधुमनिष्ये मधुजनिष्ये ुंसे मधुमनिष्ये माहि गुंसे मधुमनिष्ये मधुजनिष्ये मधुमनिष्ये मधुजनिष्ये मधु मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमनिष्ये मधुजनिष्ये मधु वक्ष्यामि मधुजनिष्ये मधुवतिष्यामि ष्यामि मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् मधुश्यामि मधुवति मधुमतीम् देवेभ्यो मधुमती मधुमतीं देवेभ्यो वाचमुद्यासगुम् देवेभ्यो वाचमुद्यासगं शुश्रूषेण्याम् चमुद्यासघं शुश्रूषिण्याम् मनुष्ये एभ्यः शुश्रूषेण्या आम् मनुष्येभ्यस्तम् आम् ृषण्या आम् मनुष्ये एभ्यस्तम् मा देवा अवन्तु ृणुश्रुषे शण्यास्तम् मा देवान् शुश्रूषेण्या आम् मनुष्ये एभ्यस्तम् मा देवा अवन्तु शोभायै शृणु शुश्रूषे शण्याम् मनुष्येभ्यस्तम् महादेवावन्तु शोभायै शोभायै पितरो देवा अवन्तु शोभायै पितरोतु लास्ट् लैन् कम्प्लिन् से वन् सिस् शुश्रूषेण्या आम् मनुष्ये एभ्यस्तं मा देवा अवन्तु शोभायै पितरोनुमदन्तु श्नो शेन्या मनुष्ये दिक्तम देवा इदितु वन्दो भाय पितृनु मदन्तु श्नो शेन्या मनुष्ये भ्यस्तम देवा इतुरो भये पितृनु मदन्तु ओके सो फार if okay, we so let's try to press to half and ill we'll to two lines the first one with other two lines okay so i'll do till uh, uh, till madu madjanish okay starting from the very beginning om ida devah ur manu yajna neer bṛhaspati rupthamadani गुंसिषद्विश्वे देवासू उक्तवाच प्रतिभिमाधर्माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये ॐ ॐ ईडादेवनु बृहस्पतिरुक्था मदानीषगुंसिषक् विश्वे देवातर्मांसि मधुमनुष्ये मधुजनिष्ये ओम ॐ इडादेवूर् मनुर्यज्ञनि बृहस्पतिरुत्था मदानि शतसिषद्विश्वे देवाय भूः तवाचः अक्तुविमा धर्मान् हि गुन्ति मधुमनेश्सी मधुजनेश्ये कृतेविमाते मम सो हू वांट्स टू ट्राय दैट टू लेंस ऑन देयर ओन आई कैन गो लेट मी ओके गो अहेड इदा देवहूर्मनुर्यज्ञनी बृहस्पतिरुप्ता मदानी षगुंसिषद् विश्वे देवासूक्तवाच पृथिवीमातर्माहिंसीर्मष्ये मधु मधुजनिष्ये इडाद्देवहूर्मनुर्यर्बृहस्पतिरुक्था मदानि शगुं सिषद्विश्वे देवासु उक्त वाचः पृथिवी मातर्मा मा हिगुं सीर्मधुमनिष्ये मधुजनिष्ये ॐ इरा देवस्पतिरुक्तामदानी जगुं शिक्षिषद्विश्वे देवाचः पृथिवी मातरि पृथिवी मातरि मांसीं मधुमनुश्रीं मधुजमिश्रीं Very good, very well done. Okay. And if you want to stop that's okay, if you say Sukta Vajaha it's okay. But when you want to see it together you have to say Sukta Vajah Pratibhi, okay? Vajah, okay? okay? If you want to say it together, but if you want to stop that's okay. Sukta Vajah Pratibhi, Madharma, you can say that, but uh, if you want to chant in that uh, in tune, okay, be careful of where you want to stop, okay? There is no problem in stopping when you are learning, no problem, okay? Um, The deva hū okay don't say deva hū De there is deva hū is a dirgha ukara om ida deva hū okay ū is a dirgha ukara but very well done okay i mean you are doing extremely well okay <laughs> the good thing about him is like he's listening okay he's not looking at the book i guess okay <laughs> Yeah. Uh, he is also looking at the book. <laughs> no, no, that's what I'm saying, but he, I think it's mostly he gets it from uh, listening more so than yeah. looking at the book. I think all adults look at the book, okay? They want to learn to like how it's written in the book as opposed to how somebody else is reading <laughs> it. <laughs> so I think he gets it faster. Very well done, Sri Gavi. Yeah, my <laughs> uncle is like, bye. Hey. <laughs> Thank you. I will try. ॐ इडा देवहूर् मनुर् बृहस्पत् बृहस्पतिदानिगुं षद् विश्वे देवाच देवाच पृथिवी पृथिवी प्रसदी मा तर्मा इक्रम माहिदु बाहिदु सिर मदुमनीष्ये मधुजनिष्ये वे गुड श्री हरि सीटिंग इज वेल सो यस करेक्टिंग इट ओके नाइस लाइक इज ओके ठीक आहे इडा देवोर्मनुबृस्पतिरुक्ता वदानि शगुं तिषद्विश्वे देवा तु उक्तवाच पृथिवीमाविंसि मधुमनुष्ये मधुजनिष्ये इदा देवहूर्मनुर्यर्गृहस्थतिरुक्ता मदानी चगुंसिषद्विश्वे विश्वे देवासूक्तवाच पृथिवी माधर्मांसेर्मधु मनुष्ये मधुजनिष्ये ऐ केक्स् देवुं तिषद् विश्वे देवां वाचि पृथिवी मातर्मा माहि माहि मा माहिर् माहिली से इदा इदा इकारा ेवक्स्ट् बैक् मधुवक्ष्यामि मधुवदिष्यामि मधुमधीं देवेभ्यो वाचमुद्यासघुं शुश्रूषेण्याम् मनुष्ये एभ्यस्तम् मा देवा अवन्तु शोभायै इदरोऽनुमदन्तु मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो उवाच मुद्रास्तुम् शुश्रूषेण्या मधुषेभ्यस्तम् देवोभायै पितरो न वदन्तु मधुवक्ष्यामि मधुवदिश्यामि मधुमती देवेभ्यो वाचमुद्या सगुं शुश्रूषेण्याम्भ्यस्तम् मा देवा अवन्तु शोभायै पितरोनुमदन्तु किल रि मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासृगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोनुमदन् पितरोनुमदन्तु मधुवक्ष्यां मधुवदिश्यां मधुमतीं देवेभ्यो वासुनि शगुं सु आं मनुष्ये व्यक्तं मादेव भवन्ति शोभाय पितॄ निवदन्ते Very well done. Very well done. Congratulations. I think he's the only one who's listening, okay? He's <laughs> just <laughs> well reading the book. <laughs> That's true. He's <laughs> so good. Yeah, he Can I try, Harry? No, sure, go ahead. Madhu Vakshyami, Madhu Vadishyami, Madhu Mateem Devegyo Vajamud. ुर्या आं मनुष्ये मा देवा शोभायै पितरो मथु पदिष्यामि मथु मथि मधुमधीं देवेभ्यो वाचमुत्यासगं शुश्रूषिण्या आम् मनुष्ये एभ्यस्तकं मा देवा अवन्तु शोभाये पितरो अनुमदन्तु मनुष्येभ्यस्तम् ओके मनुष्येभ्यस्तं मा देव लैक् अमृते नेक्स्ट् मधुवक्ष्यामि मधुवदिष्यामि मधुमती देवेख्यमुद्यादय शुश्रूषेण्या मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोनुमदन्तु मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगम् शुश्रूषेण्या आम् मनुष्ये एभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु मधुवक्ष्यामि मधु वदिष्यामि मधुमदिं देवेभ्यो वाचमुद्या सघुं शुश्रूषेण्यां मधुष्येभ्यर्थं मा देवा भवन्तु शोभायै पितरोनु मदन्तु शुश्रूषेण्या आम् manusyeebhyastam okay that you can drag it a little bit more okay okay susheenya manusyeebhyastam okay let me drag yes. it yeah. okay okay when there are two lines on top yeah this is it. all on. right so we have pleeshti uh, the last is oshan tishtan tishtanti hi So uh, we will uh, probably start next week and we'll uh, re uh, review this uh, part and then maybe try the whole uh, Tamagam once together also. Maybe talk about maybe like that uh, in a while. Thank you. Thank you. Yes. Hari, you Thank know, you. in the Livermore Temple, they are having three Rudram chanting. Did you register for that? No, I didn't. Actually, uh, Ragini had sent me the thing, but I had a few other things, so I couldn't register oh, okay. for that. Oh, okay. They were saying they need people to register, who knows how to say Rudram. Yeah. Yeah, I'll see. That, uh, okay. If this is the whole week, then probably at the end of the week I can do that, yeah. Okay. So, why don't you? he's the only man with all the women you <laughs> know what is that you were the only man and all women nani except sri hari came late after some time <laughs> well hari thank you so much this is unbelievable thank you hari yeah, yeah. we will we'll continue practicing week next week also okay so will we are uh, throw that everybody can do it on their own we have not done <laughs> so, mm -hmm. so will we probably uh, continue practice next week as well so before your teacher everything looks so difficult then the moment you start uttering it and teaching it's so easy very well that yeah yep. absolutely so these earlier you know, yeah. can you split where to split etc that then you can you can look at a small thing at a time right it's like crossing a bridge Yeah. At that time that we don't realize that I right? just put one fit mm -hmm. in the other than before you know you are under the end. So. Yeah. Mm -hmm. Uncle Rajan, um, it's also that I am more difficult difficulties to take more dread in order to activate all of the words coming for the prompt. Yes. But once Hadi, you start chanting it a little uh, more, then it becomes easier because then you can do a little faster. Then you don't have to have the breath problem. If you are doing slow, then you have to know where to stop and take that breath. That's right. So. Hadi, I have one question. Okay. What is the right, uh, where can we get the correct uh, text, uh, Sanskrit text for uh, Rudvan? Because one on... Uh, I looked at the one on Sanskrit document and then one and uh, then I looked at the Sanskrit version on Baidika Vidhyanam there are differences. The best thing is uh, uh, Mantra Pushpam okay that is the uh, our Bible reference. Mantra, Mantra Pushpam. Pushpa. Buy one and keep it. It will be very useful. Okay. So all the mantras are there. If you can get one. If somebody is coming from India or something else I'm going to get ask to ask and send it to one. Or, I think there is some online also. You can get it free somewhere okay. you know it was actually in the whatsapp group so i think somebody had posted yeah, yeah. that yeah. yeah, that is a, that is the best reference you can get okay okay just use that that is the oh, best thing is. to what is in some to that yeah she can read it yeah she that's what I'm you can read devanagari right yeah yeah i can read devanagari yeah let's get back to reading it that's all better proper bring the english one because it's much easier once you start to read devanagari okay yeah yeah basically we'll discuss it between sa ansha ansha all that stuff so. okay so we'll do three loga samastans stop and then okay. next week we'll practice this more okay okay <laughs> भवतु भवन्तु भवन्तु